मुद्गलपुराणं खण्डं सेवन् विघ्नराजचरितम् अध्यायं ट्वेल्व् शूर्पकर्णावतारवर्णनम् श्रीगणेशाय नमः कश्यप उवाच मधुकैडभनाशार्धं विष्णुनातपसा पुरा आराधितो गणेशानस्तद्भक्त्या योगसेवया तदप्रसन्नतां व्यादो विघ्नेश्यः प्रददौवरान् तैर्युक्तः स जखानैव दैत्यौ परमदारुणौ गणेशवरदानेन यशो युक्तो जनार्दनः तम् जेदुम् कः क्षमो देवि प्रभविष्यदि ते सुतः अतः त्यक्त्वा स्वपुत्रेषु ममताम् भजभावतः विघ्नेश्यम् योगिनाम् तेन वन्द्यात्त्वम् प्रभविष्यसि यादृशं गणराजेन रचितं त्रिविधं पुरा तादृश्यं वर्तते सर्वं सदेवासुरमानुषं कश्यपश्यवचः श्रुत्वा हर्षयुक्ता दिधिः पुनः जगादत्तं सुखार्थाय योगिवन्द्यं प्रजापदे दिदिरुवाच विघ्नराजावतारस्य चरितं पुनरादराद वद मे मुनिमुख्यत्वं ज्ञानं तस्य तथा परम् कश्यप उवाच धर्मघ्नस्य च पुत्रो भूद्यज्ञधृङ्नामगोऽसुरः स साधयामासोपासनां पापनिश्चयः पञ्चाक्षरविधानेन तोषयामास शङ्करं दिव्यैर्वर्षसहस्रैस्तं वरदशङ्करो ययौ स्तुतसम्पूजितस्तेन प्रसन्नस्तमुवाचः वरान्वर यदास्यामि तपसा तोषितोऽसुर स वव्रेत्रिगुणेभ्यो मे मरणं न भवेत्कदा राज्यमारोग्यसंयुक्तं ब्रह्माण्डस्य च देहि भोः यद्यदिच्छामि देवेश्य तत्तन्मे सफलं भवेद् तथेति तं जगादैव शङ्करों दर्हितो भवत तत स्वगृहमागत्य दैत्यराजो बभूवः यज्ञदृक्सैन्यमादाय जिज्ञे ब्रह्माण्डमोजसा देवाः शम्भुमुखाः सर्वे प्रपेलुश्च दिशो दश तेषां पदेषु दैत्येन्द्रान् स्थापयामास यज्ञः ततो यत्नविनाशार्थं यतदे स्म विशेषदः यज्ञः क्रोधसंयुक्तो मुनीन् सर्वानताडयद त्यक्त्वा मुनिगणायज्ञान् प्रपेलुर्भयसंयुताः वर्णशङ्करभावं च चकारसचराचरं तदो विष्णुविनाशार्थं यदते स्म महाखलः देवानां मूलनाशार्थं दैत्यः परमदारुणैः यज्ञो विष्णुः समाख्यादो वेदेषु वेदवादिभिः यज्ञनाश्ये स्वयं नष्टो भविष्यदि जनार्दनः एवं विचार्य दैत्ये स्यो यज्ञान् सर्वान् बभञ्चः यज्ञहीनं चकारैव त्रैलोक्यं सचराचरं तदो विष्णुः क्षुधा विष्ठो बभूवे देवसंयुधः अस्ति चर्मावशेषश्च सस्मारगणनायकं रक्षमां गणनाधत्वं दैत्यात् परमदारुणाद मरिष्यामि न सन्देहो यज्ञनाश्यप्रभावदः देवैसार्धं सार्धं महाविष्णुस्तताप तप उत्तमम् एकाक्षरविधानेन तोषयामासविघ्नपम् गदेवर्षशदेपूर्णे वर्षशदे गणनायकः स्तुतः सम्पूजितः सर्वैः प्रसन्नो वरदो भवत तैर्वृदो दैत्यनाशार्थं तथेदि क्रोधसंयुधः तान् जगादययौ हन्तुं यज्ञघ्नं देवपैर्वृतः कृत्वा युद्धं महाघोरं जकानाङ्गुशखाततः यज्ञघ्नं मुक्तिगं चक्रे दैत्यान् पादालगामिनः तद स देवसंयुक्तो विष्णुर्मुनिगणैस्तथा तुष्ठाव सुस्थिरो भूत्वा पूज्य नत्वा कृताञ्जलिः श्रीविष्णुरुवाच नमस्ते विघ्नराजाय विघ्नानां विघ्नकारिणे महाविघ्नप्रशान्दाय देवदेवेशते नमः अनादये परेशाय सर्वादौ संस्तुताय च सर्वेभ्यो वरदात्रे ते वरदाय नमो नमः विनायकाय सर्वेषां नायकाय परात्पर वेदादि वेदादिढुण्ठिताय नमो नमः सर्वेभ्यः स्वस्वरूपेण सुखदाय परात्मने आनन्ताया प्रमेयाय ब्रह्मणे ते नमो नमः गणानां पतयेतुभ्यं नानागणसुरूपिणे सदा स्वानन्दनाथाय सिद्धिबुद्धिपते नमः ब्रह्मणे विष्णवे तुभ्यं शक्तये शङ्कराय च इन्द्रादिदेवरूपाय कलयाते नमो नमः मुनये क्षेत्ररूपाय वैश्याय शूद्ररूपिणे पशु पक्ष्यादिरूपाय वर्णाश्रमयुजे नमः नागाय सुररूपाय राक्षसाय विहारिणे चराचररमयायैव शूर्पकर्णाय ते नमः त्रिनेत्राय त्रिशूलस्य धारकाय च चक्रिणे पाशाङ्गुशद्धरायैव हेरम्बाय नमो नमः नमस्ते परेशाय सर्वात्मकाय सदा बोधरूपाय नैरञ्जनाय अयोगाय संयोगमायाधराय जनेभ्यः सुशान्तिप्रदायाध धा धाम्ने किं स्तौमि त्वां गणाधीश यत्र वेदाश्च योगिनः विसिस्मिरे सुशान्धिस्ता शान्तिरूपायते नमः यज्ञहानिहतस्वामिं स्तेन देवर्षयो वयं रक्षिताः सर्वभावेन प्राणदादर्नमो नमः भक्तिं देहि गणाधीश तव पादाम्बुजे मलां तया वयं च योगेश बन्धहीना भवामहे यवमुक्त्वा प्रणेमुष्टं देव मुनिसमन्विताः तांस्तधेदि जगादैवान्तर्दधे शूर्प कर्णकः तत्र मूर्तिं समास्थाय शूर्पकर्णस्य सर्वदाम् पूज्य स्वस्थानगाः सर्वे बभूवुर्विकदज्वराः स्वस्वाचारसमयुक्तं बभूवः चराचरं एवं चकारविघ्नेशो नाना दैत्यविहिंसनम् अवतारा असंख्यादा विघ्नराजस्य शोभने तेषाम् वक्तुम् चरित्राणि न समर्था शिवादयः सङ्क्षेपेण मया तस्यावतारा कथिताः पराः भजस्व तं विधानेन तदा शान्तिमवाप्स्यसि रजोयुक्तम् यथा धान्यं रजोहीनं करोति च न हैः संसाधितं शूपं योग्यम् भोजनकादिषु तथा मायाविकारेण युक्तम् ब्रह्म न लभ्यते त्यक्तोपासनकं तस्य शूर्पकर्णस्य सुन्दरि शूर्पकर्णम् समाश्रित्यमलम् त्यक्त्वा हृदि स्थितम् ब्रह्मैव नरजातिस्तशूर्पकर्णस्तद स्मृदः ब्रह्मदशूर्पवधृत्स्थो वेदेषु कथितो भवेद् तम्भजस्वविधानेन शान्तियुक्ता भविष्यसि शूर्पकर्णावतारस्य कथितं चरितं मया यज्ञघ्नस्य वधार्थाय बभूवे देहधारकः य इदं शृणुयाद्वापि पठेद्वा पाठयेन्नरः समानसेप्सितं लब्ध्वा सुखी भवेन्निरन्तरम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिदे शूर्पकर्णावतारवर्णनं नाम द्वादशोऽध्यायः ॐ